श्रीहरये नमः अथ अष्टमोऽध्यायः मैत्रेय उवाच सत्सेवनीयो भतपूर्वं सो यल्लोकपालो भगवत्प्रधानः बभूविदेहाजिदकीर्तिमालां पदे पदे नोदन यस्य भीष्णं सोखं नृणां शुल्लसुखाय दुःखं महत् गतानां प्रवर्तये भागवतं पुराणं यदा आसीनमुर्भ्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्टसत्वमतः परस्य कुमारमुख्यो मुनयोन्वभृच्छन् स्वमेव दृष्ण्यं बहुमानयन्तं यं वासुदेवाभितमा मनन्ते प्रद्यग्धृदाक्षां भुजकोसमीक्षन्धुन्मीलयन्तं विबुधोतयाय स्वर्धुन्युधार्द्रये स्वज ैर् उपस्पृशस्तश्चरणोपधानम् पद्मं यतर्चन्त्य हिराजकन्या सप्रेम नाना भलिभिर्वरार्थाः मुहुर्घृणन्तो वचनानुराग कलत्पदेनाश्य कृतानि पणासहस्रम् प्रोक्तं किलवत्तमेन निवृत्तिधर्माभिरताय तेन सनत्कुमाराय सचाख भ्रष्टसाङ्ख्याय नायाङ्गधृतव्रताय सांख्याय नः पारमहंस्य मुख्यो विवक्षमाणो भगवद्विभूति हे जगातसोऽस्मद्गुरवेन्विताय परासराया तृहस्पतेश्च प्रोवाच मह्यं मुनिपुलस्त्येन पुराणमाद्यं सोऽहं तवै उदाप्लुतं विश्वमितं तदासीत् यन्निद्रया मीलितदृङ् मीलयत् अहीन्द्रदल्पे दिशया न निरीहः सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मकालात्मिकां शक्तिमुधीरयाणः उवास तस्मिन् सलिले पदे स्वे यथा नलो दारुनिरुद्धवीर्यः चतुर्युगानां च सहस्रमप्सो स्वपन् स्वयोधीरितया स्वशक्त्याः कालाख्यया साधितकर्मतन्त्रो लोकानपि तान् ददृशे स्वदेहे तस्यार्थसूक्ष्माभिनिविष्टदृष्टे अन्तर्गतोऽर्थो रजसातनीयान् गुणेन कालानुगतेन विद्ध सूक्ष्मंस्तधा भित्यतनाभिदेशात् स पद्मघोषः सहसोधतिष्ठत्कालेन तस्याम् स साम्बोरुहकर्णिकायाम् अवस्थितो लोकमपश्यमानः परिक्रमन्योम्नि विवृत्तनेत्रसत्वारिलेभेऽनुदिशं मुकानि तस्माद्युकान्तस्वसनावघूर्णजलोर्मिचक्रान् सलिलाद्विरूढम् उपाश्रितगञ्जमुलोकतत्त्वम् आत्मानम् अद्धावितत्तादिदेवः कयेशयोसावखम् अब्जभृष्ट एतत्कुतो वाब्ज मनन्यधप्सो अस्तिक्यदस्तादि ह्यदस्तादिह किञ्चनैतदधिष्ठितं यत्र सतानुभाव्यं सहित्तमुद्वीक्ष्य ततब्जनाल नाडीभिरन्तर्जलमाविवेश नाद्वागतस्तत्र करनाळ नाला नाभिं विच्छन्वंस्तदविन्ददा जहा तमस्त्यपारे विदुरात्मसर्गं विचिन्वतो भूत् सुमहांस्त्रिणे मे यो देहभाजाम्बयमीरयाण परिशोणयाध्यायुरजस्य हेतिहे तथो निवृत्तो प्रतिलब्धकाम स्वतिष्ण्यमासाद्य पुनः स देवः सनेर्जितश्वासनिवृद्धचित्तो न्यक्षीधत्तारुढसमाधियोगः कालेन सौ जः पृषयायुषाभिप्रभत्तयोगेन विरूढबोधः स्वयं तदन्तर्हृदयेव भातम् प्रणालगौरायतशेषभोगपर्यङ्कयेकं पुरुषं सयानं प्रणादभत्रायुधमोर्धरन्तद्युपैर्हतत्वान्तयुगान्ततो ये प्रोक्षां शिपन्तं हरितो बलाद्रे सन्त्याप्रणीवेरुग्मूर्ध्न रत्नो दधारौक्षति सौमनस्य वनश्रजोबेणु भुजाङ्क्रिभाङ्क्रे आयामतो विस्तरतः स्वमानते धेन लोकत्रय सङ्ग्रहेण विचित्रदिव्याभरणां सुखानां कृतश्रियापाश्रितवेशदेहं पुं स्वां स्वगामाय विविक्तमार्गे अप्यर्चतां कामधुगाङ्कृपद्मम् प्रदर्शयन्तं कृपया न हेन्धोमयूकपिन्नाङ्गुलिचारुपत्रं मुकेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन सोनायितेन धरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्रुवा कदम्ब किञ्जल्कपिशङ्कवाससा स्वलङ्कृतं मे कलयानिदम्भे हारेण <SDA> सानन्दधनेन वत्स श्रीवत्स वक्षस्थलवल्लभेन परार्ध्य केयोरमणि प्रवेक पर्यस्त धोर्दण्ट सहस्र अव्यक्तमूलम् ग्रिभेन्द्रम् अहीन्द्र आविर्भवत् कौस्तुभरत्नगर्भं निवितं माम्नाय मधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिं सूर्येन्दु वायवज्ञमं त्रिधामभि परिक्रमप्रादनिकैर्दुरासधम् तर्ह्येव तन्ताभिषरः सरोजम् आत्मानमम्बस्वसनम् वियच्छन् दतर्ष देवो जगतो विधाता नातः परम् लोक विसर्ग दृष्टिः स कर्म बीजम् रजसोपरक्थ प्रजा शिश्रुषन्नियधेव दृष्ट्वा अस्तोद्विसर्गापि मुखस्त मीड्यम् अव्यक्तवर्त्मन् अभिवेशिदात्मा इति श्रीमद्भागवते मखापुराणे तृतीयस्कन्ते अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराज की जय तस्यां स साम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः परिक्रमन्योम्नि विवृत्तनेत्रः सत्वारिलेभेऽनुदिशं मुकान्य तस्माद्युकान्तस्वसनावघूर्णजलोर्मिचक्रान् सलिलाद्विरूढम् उपाश्रितगञ्जमुलोकतत्त्वम् आत्मानम् अद्धावितत्तादिदेवः कयेशयो सा वकम् अब्जभृष्ट एतत्कुतो वाब्ज मनन्यधप्सो अस्तिक्यधस्तादिह किञ्चनैतदधिष्ठितं यत्र सतानुभाव्यं सहित्तमुद्वीक्ष्य ततब्जनाल नाडीभिरन्तर्जलमाविवेश नाद्वागतस्तत्र करनाळ नाला नाबिम्बिछन्दंस्तदविन्ददा जहा तमस्त्यपारे विदुरात्मसर्गं विचिन्वतो भूत्सु महांस्त्रिणे मे यो देकभाजाम्बयमीरयाण परिशोणया ध्यायुरजस्य हेतिहे तथो निवृत्तो प्रतिलब्धकाम स्वतिष्ण्यमासाद्य पुनः स देवः सनैर्जितश्वासनिवृद्धचित्तो न्यक्षीधत्तारुढसमाधियोगः कालेन सोजः पृषयायुषाभि प्रभृत्तयोगेन विरूढबोधः स्वयं प्रणालगौरायत शेषभोगपर्यङ्कयेकं पुरुषं सयानं प्रणादभत्रायुधमोर्धरन्तद्युपेर्हतत्वान्तयुगान्ततो ये प्रोक्षां शिपन्तं हरितो बलाद्रे सन्त्याप्रणीवेरुग्मूर्ध् रत्नो दधारौक्षति सौमनस्य वनस्रजो वेणुभुजाङ्कृङ्क्रे आयामतो विस्तरतस्वमानते स्वमानते धेन विचित्रदिव्याभरणां सुखानां कृतश्रियापाश्रितवेशदेहं पुं स्वां स्वगामाय विविक्तमार्गे अप्यर्चतां कामधुगाङ्कृपद्मम् प्रदर्शयन्तं कृपया न हेन्धोमयूकपिन्नाङ्गुलिचारुपत्रं मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन सोणायितेन धरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्रुवा कदम्बकिञ्जल्कपिशङ्कवाससा स्वलङ्कृतं मे कलयानिदम्भे हारेण सानन्दधनेन वत्स श्रीवत्स वक्षस्थलवल्लभेन परार्ध्यकेयोरमणिप्रवेकपर्यस्तदोर्दण्टसहस्रशाखम् अव्यक्तमूलं भुवनाङ्घ्रिमेन्द्रम् अहीन्द्रभोकैरधिवीतवल्सं तराचरौ को भगवन्महीन्त्रम् अहीन्द्रभन्तुं सलिलोपकूढं किरीटसाहस्रकिरण्यशृङ्गम् आविर्भवत् कौस्तुभरत्नगर्भं निवितं माम्नाय मधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिं सूर्येन्दु वायवज्ञमं त्रिधामभि परिक्रम प्रादनिकैर्दुरासधम् तर्ह्येव तन्ताभिषरः सरोजम् आत्मानमम्बस्वसनं वियच्छन् दतश्र देवो जगतो विधाता नातः लोक विसर्ग दृष्टिः सकर्म बीजं रजसोपरक्थ प्रजाशिश्रुषन्नियधेव दृष्ट्वा अस्तोद्विसर्गापि मुखस्तमीड्यम् अव्यक्तवर्त्मन् अभिवेशिदात्मा इति श्रीमद्भागवते मखापुराणे तृतीयस्कन्ते अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराज की जय